श्रीहरे नमः अथ षष्ठोऽध्यायः श्रीशुक उवाच नन्दःपदिवचः सौरेर्णेति विचिन्तयन् हरिं जगामशरणम् उत्पादगमसङ्कितः कंसेन प्रखिता घोरापूतनाभालघातिनि शुशूंश्च चार निघ्नन्दे पुरग्रामव्रजादिशु न यत्र श्रवणादीनि रक्षोज्ञानि स्वकर्मसो कुर्वन्ति सात्वतां भर्तोर्यादुधान्यश्च तत्र हि सा केचर्ये गधोपेद्य पूतनानन्दगोकुलं योषित्वा माययात्मानं प्राविसत्कामचारिणी तां केशबन्धव्यधिशक्तमल्लिका बृहन्नितम्बस्तनकृच्छ मध्यमः सुवाससंकम्पितकर्णभूषण द्विषोल्लसत्कुन्दलमण्डिताननां वल्गुस्मितापाङ्गविसर्गवीक्षितैर्मनोहरन्तीं वनितां व्रजौकसाम् अमं सतां भोजकरेण रूपिणीम् गोप्यश्रियं द्रष्टुमिवा गतां पतिं बालग्रहस्तत्र विचिन्वति सुषोन् यदृश्चयानन्दगृहे स दन्तकं बालं प्रतिश्चन्न निजोरुतेजसं ददश्च तल्पेऽग्निवाहितं भसे विभुत्य तां बालकमारिगाग्रहम् चराचरात्मा स निमीलिते क्षणः अनन्तमारोपयधङ्कमन्तकं यथोरकं सुप्तमबुद्धिरज्जुदीहे वरस्त्रियं तत्प्रभया दर्शिते निरीक्षमाणे जननीह्युतिष्ठिता तस्मिन् स्तनं दुर्झरवीर्यमुल्भणं गोरङ्गमाधाय शिशोर्धतावत् घाटं कराभ्यां भगवान् प्रभीट्यथ प्राणैः समं रोषसमन्वितो बिभत् सा मुञ्च निष भीट्यमाना अखिलजीवमर्मणि विवृत्य नेत्रे चरणौ भुजौ मुखो रस्मिन्न गात्रा शिपतीरुदोघा तस्यास्वनेन अतिकभीररंहसा शाद्रिम् अहीद्यौश्च चालसग्रहा रचादिशश्च प्रतिनेधिरे जहा पेतुश्चितौ वज्रनिपातसङ्कया निसाचरि व्यधाय केषांश्चरणौ भुजावपि प्रसार्य गोष्ठे निजरूपमास्थिता वज्राहतो वृद्र इवापतन्नृप पतमानोऽपि तद्देहस्त्रिगव्योद्यन्धरद्रुमान् चूर्णयामास राजेन्द्रमहधासीदधद्भुतम् ईशामात्रोऽग्रसंष्ट्रास् गिरिकन्धरनासिकम् घण्डैशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् अन्धकूपगभीराक्षं पुलिनारोह भीषणं भत्तसेतुभुजोर्वङ्ग्रे शून्यस्तो य हृदोदरं पूर्वन्तु तन्निःस्वनितभिन्नहृत्कर्मणमस्तकाः बालं च तस्या उरसि क्रीडन्तं मकुतो भयं गोप्यस्तूर्णं समभ्येत्य जगृकुर्जातसम्भ्रमाकां यशोदारोहिणीभ्यां तासमं बालस्य सर्वतः रक्षाम्बिदतिरे सम्यग् गोपो च प्रणादिभिः गोमूत्रेण स्नापयित्वा पुनर्गोरचसार्भकं रक्षां सकृश्च द्वातसाङ्गेषु नामभिहे गोप्यः करयो पृथक् न्यस्त्यात्मन्यत बालस्य बीजन्यासमकुर्वथाव जान्वतो यज्ञोश्च्युतकटितं हयास्य हृत्केशवस्त्वधूयीशयिनस्तु कण्ठं विष्णोर्बुचम् मुखं वुरुक्रमईश्वरखं सत्यग्रतः सगगधो हरिरस्तु पश्चात् त्वत्पार्श्वयोर्धनुरसी मधुकानजश्च कोणेषु शङ्कबुरुगाय उपर्युपेन्द्रः दार्शक्षितौ हलधर पुरुषः समन्तात् इन्द्रियाणि हृषि केशः प्राणानारायणोऽवथो त्वेधद्वीपपतिश्चित्तं मनोयोगेश्वरोऽवथो प्रश्निगर्भस्तु ते बुद्धिम् आत्मानं भगवान् परः क्रीडन्तं पातु गोविन्दसयानं पातु माधवः रजन्तं वैकुण्ठ आसीनं सर्वग्रहभयङ्करः धागिन्यो यातु धान्यश्च कुश कूष्माण्डो येर्बहग्रहाः भूतप्रेतपि चाचाश्च यक्षरशो विनायकाः कोटरारेवती ज्येष्ठा पूतना मातृकादयः उन्मादाये शपस्मारा देहः प्राणेन्द्रियधृतः स्वप्नदृष्टा महोत्पाता वृद्धबालाग्रहाश्च ये सर्वे नश्यन्तु इति प्रणयबद्धाबेर्घो बिपि कृतरक्षणम् पाययित्वा स्तनं माता संयवेश यधात्मझं तावन्नन्दातयो गोपा मथुरा या व्रजं गताः विलोक्य पूतनाग्देहं बभुभु अतिविस्मिताः नूनं बतर्षि सञ्जातो योगे सोवासमाससः स एव दृष्टो ह्युत्पादो यद्यधा हानकधुन्दुभिः ्रजङ्कसहा दूरे क्षिप्तवा वयवसेर्न्यदहन् काष्ठधिष्ठितं दह्यमानस्य देहस्य धूमश्चा गुरुसौरभः उत्थितकृष्णनिर्भोक्तसभत्यागतपाप्मनः पूतनालोकभालग्नि राक्षसीरुतिरासनः जिघांसयापि हरये स्तनं तत्त्वाप सद्गते किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने यच्छन् प्रियतमं किनु रक्तास्तन्मातरोयत पद्भ्यां भक्तकृतिस्ताभ्यां वन्द्याभ्यां लोकवन्दितैः अङ्गं यस्यासमाक्रम्य भगवान् अपि भजनं याधून्यपि सार्गम् अवापजननी गतिं कृष्णभुक्तस्तनक्षीरा किमुगावो नु मातरः पयांसि यासामभिभत्पुत्रस्नेकस्नुतान्यलं भगवान् देवकी पुत्रकैवल्यात किल प्रदः तासामविरतं कृष्णे कढधूमस्य सौरभ्यमवघ्राय व्रजौकसः किमिदं कुतये वेते वदन्तो व्रजमाययुः ते तत्र वर्णितं गोपै पूतना कमनादिकं श्रुत्वा तन्निधनं स्वस्ते शिशोश्चासन् सुविस्मिताः नन्दस्वपुत्रमाधाय प्रेत्यागतं बुधारधीहे मूर्तन्युभाक्राय परमामुतं लेबे कुरुद्वहा ययेतत्पूतना मोक्षं कृष्णस्यार्भगमद्भुतं शृणुया श्रद्धयामर्त्यो इति श्रीमद्भागवते दशमस्कन्ते पूर्वार्थे षष्टोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज की जय